मुद्गलपुराणं खण्डं 6 विकटचरितम् अध्यायं तर्टि मयूरेश क्षेत्रमाहात्म्यसमाप्तिवर्णनम् श्रीगणेशाय नमः आदिशक्रिरुवाच ततोभ्रान्तामहेशानादृश्युर्नमयूरथम् स्वानन्दरूपकं ब्रह्म सस्मरुर्गणनायकं भृशुण्डिनं हृदि ध्यात्वा तदो ततो गणेश्वरं पूज्य प्रार्थयामासुरादराद देवेशाजुः मयूरं दर्शय स्वाद्य न जानीमो वयं परम् अज्ञानावरणायुर्युक्तान् रक्ष नस्ते पदार्थिनः अकस्माद्वेदमुख्याश्च बभुसाङ्ख्याः समागताः गणेशश्वाससम्भूतो देवे शाञ्ज्ञानदायिनः तान् दृष्ट्वा तेजसा पुञ्जयुक्तांस्ते देवसतमाः प्रणम्य वेदान् पप्रच्युके यूयं वदत प्रियाः अज्ञानावरणायुर्युक्ता गणेशस्मरणे रदाः वयं तत्र भवन्तोऽपि प्रेषिता गणपेन किं वेदा ऊजुः वेदा वयं महेशानात्साङ्गा अत्र समागताः किमर्थं दुःखसंयुक्ता भवन्तो वदत तदसर्वं तत् जगुर्देवा वृत्तान्तं पूर्वसंभवं तत्रुत्वा वेदमुख्यास्तान् मयूरं तद दर्शयन् ब्रह्ममयं क्षेत्रं दृष्ट्वा ज्योतिर्मयं परम् प्रणेमुस्ते तद सर्वे प्रवेशं चक्रुरादराद विधियुक्तम् प्रचक्रुस्ते देवेश वेदसंयुताः तदो वेदाज्ञया हृष्टा स्थापयन्ति स्म मूर्तिः सम्पूज्य ध्याननिष्ठास्ते जयपुर्मन्त्रम् विधानतः निराहारेण विघ्नेशं तोषयन्ति स्म देवपाः यस्मिन् काले च देवे श्यायि स्थापिता मूर्तिरुत्तमा भाद्र शुक्लचतुर्थी सा तदा माध्याह्नगाभवद सोमवासरसंयोगस्वादिनक्षत्रकं महद दैव योगेन कालश्च सम्प्राप्तः शक्तयः परः शक्तय ऊजुः सृष्टिहीनं तदा देवि कथं मासाधिकं बभौ एतत्कुतूहलं ब्रूहि संशयच्छेदनायनः आदिशक्तिरुवाच दृश्यभावात्मककालो का नश्य दिश्म युगे युगे सद ब्रह्मि सर्व ब्रह्मकार प्रवर्तद कालम विघ्नेशो योग्रापरोद तथा निद्र विहीन सकार सृष्टिमुत ब्रह्मणि ब्रह्म स कालस्त अज्ञान जान तशेवन भवद तेना सिुदे स्म न संशय यदा ज्ञानद वापो दधेद माखे शुक्ल वरदो भवद, अङ्गारकयुतायाम् तु मूर्तिमध्याद्विनिर्ययौ दृष्ट्वा च दुर्भुजम् ढुण्ढिम् मयूरोपरि संस्थितम् सिद्धिबुद्धिसमयुक्तम् बालचन्द्रम् महोदरम् त्रिनेत्रम् शेषनाभिम् चिन्तामणिधरम् परम् शूर्पकर्णम् गजास्यम् च एकदन्तविराजितं पाशाङ्कुशरदैर्युक्तमभयं दधदं प्रभुं भूषणैर्भूषितं वस्त्रैराजितं ददृशुः परं तद उद्धाय देवेशा मया युक्ता प्रणम्यतं पुपूजुस्तुष्टुवुश्चैव प्रहृष्टमनसोऽभवन् ब्रह्माद्याहूचुः अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासं मनोवचो हीनमनोवचस्थं न मामहेतं गणनाथमीढ्यम् अजम् पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् चदुःप्रचालं परमार्थभूतं नमामहेतं गणनाधमिढ्यं जगत्स्वकोत्थानबलेन सृष्ट्वा स्वबोधगम्यं जगदीश्यसंस्थं विदेहभावेन सदात्मसंस्थं नमामहेतं गणनाथमिढ्यम् तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीष्टम् अयोगरूपेण निवृत्तिसंस्थं नमामहेतं गणनाथमेढ्यं प्रभुं स्वभक्तस्य सुशान्तिकारं सुशान्तिगं यं गजवक्त्रधारम् चतुर्भुजं ह्येकरथं त्रिनेत्रं नमामहेतं गणनाथमीढ्यं महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यं परात्परं शूर्पश्रुतिं गणेशं नमामहेतं गणनाधमीड्यम् नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च विष्णवे शम्भवे तुभ्यम् संहर्त्रे वै नमो नमः अनाधानां प्रणाधाय शक्रये मोहधारिणे कर्मणे भानवे चैव हेरम्बाय नमो नमः मयूरेशाय देवाय मयूरध्वजधारिणे विघ्नेशाय महाविघ्नचालकाय नमो नमः किं स्तुमस्त्वां गणेशानब्रह्मणां ब्रह्मरूपिणं यत्र देवादयशान्तिं गच्छन्ति स्म निरन्तरम् अदो न मामघेनाद तेन तुष्टो भवस्व च प्रिय रक्षमहाभक्तिप्रियविघ्नेश आदराद एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुधाः साश्रुनेत्रात्सरोमाञ्जास्तानुदाप्य जगादशः श्रीगणेश उवाच भवत्कृतमिदं स्तोत्रम् सर्वदम् प्रभविष्यति पठताम् शृण्वताम् देवा सर्वं दास्यामि वाञ्छितम् वरम् ब्रूदविशेषेण दास्यामि मनसीप्सितं तपसास्तापनेनैव ह्यहं स्तोत्रेण तोषितः देवेश ऊचुः यदि विघ्नेशसन्तुष्टो वरं दास्यसि वाञ्छितं तदा ते पादपद्मेनो भक्तिरस्तु निरन्तरम् अन्यच्चास्माभिरानन्दात् करणीयं किमप्यहो कार्यं ब्रूहि गणाधीश करिष्यामो जवान्विदः श्रीगणेश उवाच चतुर्मुख रजोयुक्तसृष्टिं कुरु मदाज्ञया ब्रह्मा नाम्ना भवस्वत्वं मां स्मृत्वाहं विवर्जितः विष्णुश्च दुर्भुजः सत्त्वयुक्तोऽसि कुरुपालनं नानावतारभृन्नित्यं मां स्मृत्वा सिद्धिमेष्यसि तमोयुक्तः पञ्चमुखस्तेन त्वं संहरस्व च मां स्मृत्वा बन्धहीनश्च भविष्यसि हरो भव चतुर्भुजे क्रियायुक्ता त्वं तदो मोहयस्व च नानाभेदविभागेन मां स्मृत्वा सिद्धिमेष्यसि नाम्ना शक्तिर्भवस्वत्वं सर्वशक्तियुधेन के सहस्रकरसूर्यस्त्वं भवनाम्ना महामदे कर्माधारस्वरूपेण धारयस्वचराचरं मां स्मृत्वा बन्धहीनोऽपि भविष्यसि न संशयः यवमुक्त्वा गणाधीशो ददौ तेभ्यो विशेषतः सङ्कल्पसिद्धिजं देव्यसामर्थ्यं विविधं तथा शक्तयो नगराण्ये वायुधानि वहनादिकं वा निर्मायान्तर्दधे सद्यो मूर्तिसंस्तो बभूवः देवा स्वस्वपदेगत्वा गत्वा चक्रुः सर्वं जगत्तदः चराचरं यथा भागमाश्रित्य किलरेमिरे तत्र ये मुख्यरूपाश्च प्रजापतिमुखोद्भवाः अप्रेषयन् महेशास्तान् मयूरेशिताय च के गणेशं समाराध्य मयूरे वरसंयुताः स्वस्व्यापारसंयुक्ता बभूव स्वपदे रदाः एवं क्रमेण सर्वे दु चराचरमयामुखाः मयूरेशं समाराध्य सत्तायुक्ता बभूविरे तदसर्वां स्वभावेन मयूरेशं शिषेविरे क्षेत्रवासपरादेव्यकथितं सर्वमञ्जसा शङ्करेण तपस्तप्तं पुनस्तत्र मयूरके गणेशवरदानेन महादेवो बभूवः इदं मयूरक्षेत्रस्य माहात्म्यं कथितं मया सङ्क्षेपेण महादेव्यसर्वसिद्धिप्रदायकं शृणु याज्ञो नरो भक् श्रावयेद्यः पठेत् तथा धर्मार्थकाममोक्षांश्च भुक्त्वा ब्रह्ममयो भवेद् नानेन ना सदृशं किञ्चित् पावनं त्रिषु वर्तते वेदशास्त्रपुराणेषु सारात्सारथमं मदं पुत्रपौत्रयुधश्चात्र धनधान्यसमन्वितः सुहृद्भिः संयुधसोऽपि मोदते सुखदायकः अन्धे स्वानन्दवासीदु भूत्वा ब्रह्ममयो भवेद अस्य श्रवणमात्रेण नरः सर्वमवाप्नुयात् अपुत्रो यो लभे पुत्रान् गुणयोक्तांस्तु शक्तयः मयूरस्यैव श्रवणात् दुर्लभं न भविष्यति व्रतानि सर्वभावेन यः करोति नरोत्तमः तेभ्यः शताधिकम् पुण्यमस्य श्रवणदो लभेत् तीर्थानि क्षेत्रमुख्यानि सेवन्ते धर्मसंयुताः तेभ्यः शताधिकम् पुण्यमस्य श्रवणदो लभेत दानानि सर्वयज्ञांश्च यः तेभ्यः शताधिकं पुण्यमस्य श्रवणदो लभेद वेदशास्त्रपुराणानि श्रुत्वा यत् प्राप्नुयात् फलं तस्माच्छताधिकं पुण्यमस्य श्रवणदो लभेद बहुनात्र किमुक्तेन नानेन सदृशं परम् किञ्चित् साधनकं प्रोक्तं सत्यं सत्यं वदाम्यहं यत्र ब्रह्मपदित् साक्षात् क्षेत्रं स्वानन्दवाचकं कमण्डलु नदी तस्य साम्यं किं भवतीत्यहो ब्रह्मभूयपरं प्रोक्तं वेदादिषु इदं किल तेन किं शक्त्रयः कुत्र समतां लभदे परं नित्यं भक्प्रीयुधो जन्तुर्माहात्म्यं यः पठिष्यति स गणेशो न सन्देहो दर्शनात् दुःखकारकः अथवा शुक्लकृष्णायां चतुर्ध्यां नियतः पठेद दर्शनमात्रेण पवित्रान् कुरुते नरान् संस्कारहीनभावेन नरो नेदं कदाचन शृणुयाच्च पठेत्वापि सदा पापैः स तद्भक्तिहीनाय विद्विषे षडाय पापयुक्ताय पाखण्डनिरताय च यदि विघ्नेश्वरं सर्वे भावयुक्ता भजन्ति चेत् तदा जन्मधरा के वै भवन्ते विघ्नसंयुताः अधः पात्रं प्रदृश्य श्रावयितव्यं विशेषतः भक्तियुक्तस निन्दान्तु न करिष्यति सेवितुम् सर्वसारं मया प्रोक्तं देव्यः सर्वपदं परं तत्र गत्वा गणेशानां सेवध्वं भक्तिसंयुताः देहधारणकस्यैव सार्थकं वस्तदा भवेत् नो चेत् पतिततुल्यश्च देहो वश्चन संशयः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरे सेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः ॐ